मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं फोर् देवमुनिवरप्रधानम् श्रीगणेशाय नमः शिव उवाच दैत्योऽहङ्कारकोत्यन्तं परस्त्रीलालसस्ततः बभूव दैत्य नागकन्या समानयद दैत्यपैर्नागकन्या सन्या नाण चुक स बलात्सो बुभुजे सर्वोषक मध्यमस्यम बभूवणेशज दुष्टात्मा पाप पापकर्मपरो भवद एकदा सभासंस्तं जगादाधर्मधारकः दैत्येन्द्रैः प्रेरिदसर्वैः कृत्वा करपुडं वजः अधर्मधारक उवाच जिदं महाभाग महाभागब्रह्माण्डं लोकसंगुलं जगदीशस्त्वमेवै वैको नान्यः कश्चन विद्यते देवा मुखा सर्वे भवन्ति वनसंस्थिताः प्रकीर्तिता शत्रवो नो वेदेषु च सुरासुराः शस्त्रादिभिश्च देवेन्द्रामरिष्यन्ति कदापि न अमरा वेदवादेषु कथिता पश्यमानदा कर्मान्ना अमरा सर्वे नष्टे कर्मणि दैत्यपमरिष्यन्ति न सन्देहकर्मण कण्ठनं कुरु जित्वा त्रिलोकराज्यं च करुतारो बहवो भवन् असुराकालयोगेन देवेन्द्रार्निहिताः पुरा अतश्चिद्रं समालोक्य त्वां हनिष्यन्ति अहं तेषां विनाशार्थं यद स्वासुरनायकैः अधर्मधारकस्यैव वचश्रुत्वा महासुराः साधु साधु ब्रुवन्ति स्म शङ्खाद्यास्तत्र संसति तदोहङ्कारको हृष्टो जगादवचनं साधु प्रोक्तं त्वया दैत्यकुरु सर्वैः समन्वितः पृष्ठो दैत्यसमूहैः स युक्तो जगामहर्षितः अधर्मधारको भूम्यां चकारकर्मखण्डनं कर्मखण्डनभावेन आहाकाररवाकुलाः जना वर्णाश्रमैर्हीना कृतास्तेन दुरात्मना देवतायतनादीनि खण्डयामासर्वतः क्षेत्राणि निजगणेशस्य मूर्ति सर्वास्तथा द्विजाः सर्वत्राकं प्रतिमाश्चस्थापिता भूमिमण्डले पूजका राक्षसास्तत्र कृतास्तेन सुपापिना गृहे गृहेऽभिमानस्य प्रतिमा मानवै किल पूज्या कृता द्विजास्तेना सुरम् कर्म प्रवर्तितम् कृत्वा धर्मधरकार्यम् प्रययौ तम् सुभर्षितः तेनादिपूजितः सोऽपि कृतार्थता एवं कर्माणि नष्टे दु वर्णसङ्कररूपिणः जना देवा दुःखयुक्ता बभूविरे मुनिभिः सहिता सर्वे देवाश्चो पोषणान्विताः विचारं चक्रुरे नाशार्थं दैत्यपश्यते ततो ब्रह्मा महेशाद्यानुवाच खे खेदसंयुतः मायायुक्ता वयं सर्वे जिदास्तेन दुरात्मना मायानाविधा विप्रवेदेष्वत्र न संशयः तया हीनो गणेशानो नान्यः कश्चन विद्यते पञ्चचित्तमयी बुद्धि पञ्चभ्रान्तिकरी तथा सिद्धिस्तयोः पदि सोऽपि मायिको गणनायकः सिद्धिर्बुद्धिः पर माया न तयोर्विद्यते परा अतो विघ्नेश्वरो mm. दैत्यं हनिष्यदि न संशयः गणेशवरदानेन दैत्यनायकः विस्मृतो गणनाथं तं मन्द्रं त्यक्त्वा स्थितो भवद गणेशक्षेत्रकाण्येव खण्डयामस गणेशपूजनं सर्वं कर्म स्वादौ अतो विघ्नसमायुक्तं जातं तं देवसतमाहाम् पूजितो ढुण्डिर्हनिष्यति महासुरम् अधुनैकाक्षरम् मन्त्रम् जप्त्वा ध्यात्वा गजाननम् पूजयित्वा तपोयुक्तास्तोषयामो विशेषतः श्रीशिव उवाच ब्रह्मणो वचनम् श्रुत्वा देवमुनिसमन्विताः साधु साधु ब्रुवन्ति तथा चकृसहेश्वराः निराहारसमयुक्ता एकाक्षरविधानदः तेषयामासुरत्यन्तं भक्तियुक्ता गणेश्वरम् एवं येवं पूर्णे प्रसन्नो गणनायकः ययौ तान् देवमुख्यांश्च वरदो मुनिसप्तमान् मूषिकोपरि संस्थं ते ददृश्युर्द्विरदाननं प्रणे मूर्घर्षसंयुक्ताः पूजयामासुरादराद पुनः प्रणम्य विघ्नेशं ते वा मुनिसमन्विताः तुष्टुवोर्गणनाधं ते धूम्रवर्णं प्रकर्षिताः देवर्षय ऊचुः धूम्रवर्णाय सर्वेभ्यः सर्वदाय कृपालवे गणेशाय परेशाय परात्पराय ते नमः लम्बोदराय विघ्नानां पदये ते नमो नमः विघ्नकर्त्रे च तद्धर्त्रे हेरम्भाय नमो नमः अनादये विशेषेण ज्येष्ठाय सर्वपूजित मनोवाणीविहीनाय मनोवाणी मयायते समस्ते ब्रह्मरूपाय ब्रह्मणे ब्रह्मदायिने ब्रह्मणाम्पदये तुभ्यं मन्द्रनादाय ते नमः महोरूपाय देवाय देवदेवेशरूपिणे देवेभ्यो वरदात्रे दे महोदर नमो नमः आदिपूज्याय सर्वेषां मात्रे पित्रे नमो नमः सर्वरूपाय कर्मरूपाय ते नमः शूर्पकर्णाय शूराय वीराय परमात्मने चतुर्भुजाय धूम्राय गुणेशाय नमो नमः कर्त्रे भर्त्रे च भर्त्रे परज्ञानस्वरूपिणे स्वाधिनाय महामोहदात्रे हर्त्रे नमो नमः यत्र वेदादयस्वामिन् शान्तिम् प्राप्ताश्च योगिनः गणेश तत्र केनाथ वयं ते स्तवने प्रभो वर्णाधूम्रायिदा यत्राव्यक्तरूपे पुरा त्वयि धूम्रवर्णसमाख्यादो वेदेषु वेदवादिभिः धन्या वयं महाभागत्वदङ्क्रियुगदर्शनाद् अव्यक्तव्यक्ततां प्राप्तो भक्तवात्सल्यकारणाद् यवमुक्त्वा प्रणेमुस्थं धूम्रवर्णं सुरर्शयः उद्दाप्य धूम्रवर्णस्तान् जगादमेखनिस्वनः धूम्रवर्ण उवाच भवत्कृतमिदं स्तोत्रम् सर्वसिद्धिप्रदायकं भविष्यदि महाभागाः पठेत शृण्वदे परं पुत्रपौत्रादिकं धान्यं धनं लभे नरस्तथा यद्यदिच्छति तत्तत्तु सफलं सम्भविष्यति वरान् वृणुद देवेशामुनयो मनसीप्सितान् दास्यामि तपसातुष्टस्तोत्रेण भवतां परान् गणेशवचनं श्रुत्वा देवर्षयप्रणम्यतं जगुः प्ररुष्ठभावेन देवदेवेशमादराद यदि प्रसन्नभावेन वरदोऽसि गजानन तदा कङ्कारकं दैत्यं जहि सर्वज्ञते नमः सर्वेभ्यो दुःखधाता स कर्मखण्डनकारकः समृद्धश्चेद्गणाधीश भविष्यदि तदा सुखं मायायुक्तविहीनस्त्वं तव हस्तान् महासुरः मरिष्यदि न सन्देहस्तस्मात् तं जहिमानद अस्मै त्वया भयं दत्तं तेन सर्वे पराजिताः वयं शरणं प्राप्ता रक्ष रक्ष महाप्रभो तव पादे दृढां भक्तिं देहि नो तया विघ्नविहीनास्ते पदं प्राप्स्यामहे वयम् एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः तदेधि तानधोक्त्वा सावन्दर्धानं चकारः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते नाम चतुर्थोऽध्यायः ओ